श्रीमद्भागवत् महापुराणं दशं स्कन्धम् नवतितमोऽध्यायः एवं वेदोदितं धर्ममनुतिष्ठन् गतिः गृहं धर्मार्थकामानां मुहश्चादर्शयत्प्रदम् आसितस्य परं धर्मं कृष्णस्य गृहमेधिनाम् आसन् षोडशसाहस्रं महिष्यश्च तासां श्रीरत्नभूतानाम् अष्टमौ या प्रागुदािताः रुक्मिणीप्रमुखा राजन् तत्पुत्राश्चानुपूर्वशः एकैकस्यां दशदश कृष्णोजीजनतादात्मदान् यावत्य आत्मनो भार्या अमोघगतिरीश्वरः सेषामुद्दामवर्याणाम् अष्टादशमहारथाः आसनन्दुनोदारयस तेषां नामानि मेषूणु प्रद्युम्नश्चानिरुद्धश्च दीप्ति दीप्तिमान् साम्भो च साम्बो मधुर्बृहद्भानुर्चित्रभानुर्विकोरुणाम् पुष्करो वेदबाहुश्च सुतदेव सुनन्दनः चित्रबाहुर्विरूपश्च कन् कविन्यर्गो एतेषामपि राजेन्द्रतनुजानां मधुद्विष प्रज्ञुं न आसीत प्रथमा पितृवद् रुक्मिणीसुतः स रुक्मिणों द्विहितरमुपये मे महारथ तस्मात् सुतो निरुद्धो भुन्नागायुतबलान्वितः स चापि रुक्मिणपौत्रीं दौहित्रो जगृहे तत वज्रैर्तस्या भवद्यस्तु मोसलादवशेषितः प्रतिबाहुरभूत् तस्मात् सुबाहू तस्य ताच्छात्मजः सुबाहो सान्तसेनो भूञ्चतसेन सुतस्तुतः न हे तस्मिन् कुले जाता अधना न बहुव्रजाः अल्पाशोऽल्पवीर्याश्च अब्रह्मण्याश्च जग्गिरेम् वंशप्रसूतानां पुंसां विख्यात कर्मणां सङ्ख्या न शक्यते कर्तुम् अपि वर्षायुतै नृपम् तिस्रकोट्यसहस्राणाम् अष्टाशीतिशतानि च आसन् यदं कुलाचार्या कुमाराणामिति श्रुतम् सङ्ख्यानं यादवानां करिष्यति महात्मनाम् यत्रायुतानाम् अयुतं लक्षणे नास्ते स आहुकः देवासुराहवयता दयते या ये सुदारुणाः ते चोत्पन्ना मनुष्येषु प्रजातृप्ता बाधिरे तन्निग्रहाय हरिणा प्रोक्ता देवा यदोकुलेम् अवतेणा कुलशतं तेषामेकाधिकं नृप तेषां प्रमाणं भगवान् प्रभुत्वेनाभवद्धरिः येन चानुवर्तिनस्तस्य बृभु सर्व यादवाः सय्यासनाटनालापक्रीडास्नानादिकर्मसु न विदुः सन्तमात्मानं विष्णय कृष्णचेतस तीर्थं चक्रे निपोणं यदजने यदसुष्वसरित्पादशोचम् ीटस्निग्धास्वरूपं यविरजितं परा श्रिरिजदरसेनः जन्नामामङ्गलघ्नं श्रुतमथ गदितं यत्कितो गोत्रधर्मः कृष्णस्यैतन्नचित्रं चितिबरहरणं कालचक्रायुधस्य जयति जननिवासो देवके जन्मवादो यदुवरपर्षस्त्वैर्दोर्भिरन्यस्यन्नधर्मं तिरचरवृजिन्नघ्न सुस्मिताश्रीमुखेन ब्रजपुरवनितानां। वर्धयन् कामदेवं। इत्थं परस्य ऋजुवर्त्मरे रक्षयात् लीलातनो तदनुरूप विडम्बनानि कर्माणि कर्मकृषणानि यदुत्तमस्य श्रोया तमुस्यपदयोरनुवृत्तिमेच्छन् मर्त्यस्तयानुसवमेधितया मुकुन्द श्रीमत्कथाश्रमणकीर्तनचिन्तयिति तद्धामदुस्तरकृतान्तजवापवर्गं ग्रामात्मनं क्षितिभुजोऽपिदयान्तसान्दं श्रीमद्भागुते महापुराणे वयाशुज्ञाम् अष्टादशसहस्रायाम् आरमश्याम सेता दसमस्कंधे उत्तराधेषन वर्णन नाम नवतीत्याय दशमस्कंधोत्राध संपूर्ण श्रीकृष्णर्पणमस्तू